मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् यैट् श्रीगणेशाय नमः मुद्गल उवाच एवं दत्तसयोगेन योगभूमिं समाचरन्नाचेष्टायुधो दक्ष अवधूतः प्रकाशते गोवद्भक्षणसंयुक्तः पशुवत् पक्षिवत् कदा मूत्राधिदेहचेष्टां स चकारमुनिसत्तमः सहजावत्तयायुक्तो बभूवान्दे त्रिसम्भवः तत्रां दह्यामिदां ज्ञात्वा खेदयुक्तो बभूवः व्यक्ताव्यक्त समेत्यादिनाब्रह्मसुसंस्थितः योगेन न स शान्दो भूयौ स्वपितरं ततः प्रणम्य भगवानत्रिं दत्तो योगिसमावृतं साक्षात् ब्रह्ममयं पूर्णं प्राञ्चलिः पुरदो भवत् अत्रिणामानि दत्सोऽपि निशसा दासने स्वयम् उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुधः दत्त उवाच स्वामिन्नाविधं ब्रह्ममया योगेन साधितम् तत्रोपाधिसमादिष्ट उपाधिरहितो भवम् उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः तत् त्यक्त्वा सहजे संस्थिदो भवं तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभोक्तेन शान्तिविहीनोऽहं किम् करोमि वदस्वभोहो भोः सह जान्नपरं ब्रह्म लभ्य दे अदो मां शान्तियोगं त्वं कदयस्व महामुने दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपः अत्रिस्तु वाच तं पुत्रं शान्तिमिच्छन्तमादराद शृणुपुत्र प्रवक्ष्यामि शान्तियोगं सनातनं ब्रह्मणा कथितं मेदं येन शान्तोहमञ्चस अस्माकं कुलदेवत्वं प्राप्तो गणपतिप्रभुः स वै शिवादिदेवानां कुलदेवप्रकीर्तितः शान्तियोगस्वरूपं त्वं तं जानीहि महामदे भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि गणेशात् सर्वमुत्पन्नं तेन संस्थापितं सुधा तस्याराधनमात्रेण कृदकृत्याशिवादयः नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते तदेव ब्रह्मा सद्रूपकं परं तत्रामृतमयं सौरमात्माकारेण संस्थितं सद्रूपं तद्विजानीहि ब्रह्मवेदे प्रकीर्तितं तयोरभे दधो ब्रह्म समं सर्वत्र संस्थितं सदसन्मयमेवं च विष्णुं जानीहि वेदतः तेभ्यो विलक्षणं तुर्यं मेदिरूपं प्रकीर्तितं निर्मोह शिव च स्वाधीनं ब्रह्म तद्बुधैः चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यदे बुधैः स तु मायामयः साक्षात् गणेशो वेदवादिभिः अन्तर्बाह्या सर्वा ब्रह्मकारा प्रदृश्यते कर्मयोगस्य संयोगकर्मणां सुधा ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनां तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ज्ञानानां कर्मणां चैव भेदयोगः समात्मकः आनन्दात्मकरूपोऽयं स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः स्वेच्छया शत्रुभिर्हेण सहजाख्यप्रकथ्यते सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयं ब्रह्मभूतात्मको योगस्वानन्दाख्यप्रकीर्तिदः तत्र स्वाधीनदात्रे धपराधीनकदा कुतः ब्रह्मणि ब्रह्मभूतस्य स्वत परत एव च उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः स्वानन्दे सुदसंयोगो जगदां ब्रह्मणां भवेद सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः अयोगात्मकयोगश्च सदा संयोगवर्जितः जगदां ब्रह्मणां तत्र प्रवेशोऽदो विद्यते सदा निर्मायुगो योगस्वसंवेद्यविवर्जितः स्वकीयाभेदहीनत्वान् निर्वृत्तिर्योगिभिर्वृदा ब्रह्म ब्रह्मणि संस्तं यन्नागदं नगदं पुनः स्वानन्दनाशदो लभ्यं ब्रह्मभूयमयोगकं ब्रह्मस्वानन्दवासी स गणेशः कथ्यदे बुधैः न स्वानन्दात्मकप्रोक्तो वेदेवै वेदवादिभिः क्रीडात्मकगणेशानस्वानन्दः परिकीर्तितः संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः निरानन्दात्मकत्वेन सदा ब्रह्मणि संयोगयोगयोश्चैव तयोर्नाशे गणेश्वरः शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकर्तितं पञ्च चित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक त्र मोहकली सिद्धिभ्रांति मोह रूपिणी धर्मकामोक्षाण सिद्धिर्भिन्ना प्रदृश्य दे ब्रह्मभूतमयी सिद्धि कथिता योगिभ पंच था, था तत्र तदिबित सुदा, तदेव गणराजस्य रूपं बिम्बात्मकम्परं धर्मार्थकाममोक्षेषु भ्रमभूतेषु यत् स्मृतम् ऐश्वर्यं मोहदं जन्तुर्यत्र भ्रमति लालसी पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च जीवं जानीहि पुत्रत्वं शान्तियोगस्य सेवयात् पञ्चचित्तप्रणाश्येव पञ्चैश्वर्ये लयं गदे अधुनागणराजस्त्वं भवितासिनसंशयः त्यजावधूतमार्गं त्वं भव मोख्योऽवधूतपः अवधूय महच्चित्तं महदैश्वर्यमादराद अतश्शान्तिं भजस्वत्वं दत्तयोगेन सत्वरम् ददामिते ते महामन्त्रं गणेशस्य विधानदः तदयेकाक्षरं मन्त्रं ददौ पुत्राय भावतः अधिर्योगविदां श्रेष्ठस्थं प्रणम्य ययावचः साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदाम्बरः गङ्गाया दक्षिणे तीरे पूजयामास विघ्नपम् त्यक्त्वा भूमिस्वरूपं स शान्तिमास्ताययोगविद अभजत्तं सुभावेन गणपं कृतिचिन्तयन् महायोगी स्वयं दत्तो वर्षेणैकेन शौनक शान्तिं प्राप्तो विशेषेण गणपत्यो बभूवः तं द्रष्टुं गणपस्तत्र ययौभक्तं निजेच्छया भक्तवात्सल्यदो देव आश्रमे सुखशान्दिदे तं दृष्ट्वा सहसोद्धाय प्रणनाम कृताञ्जलिः तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतं श्रीदत्त उवाच नमो गणपदेतुभ्यं नमो योगस्वरूपिणे योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः सिद्धिबुद्धिपदेतुभ्यं पञ्चचित्तप्रधारक नानाविकारशीलाय गणेशाय नमो नमः सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने मोहकन्द्रे मोहकर्त्रे हेरम्बाय नमो नमः स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे नानामायाविकाराय विघ्नेशाय नमो नमः साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते परादुत्थानरूपाय विदेहाय नमो नमः बोधाय सर्वरूपाय देहदेहिमयाय च स्व उद्धानय प्रकृति प्रलयाय साय देवाय जगदीशायते नम मे बिंदु रूपाय जगद्रूपायते जगद्रूपा नमदत्मकुणेशा नावेशधारिणे ब्रह्मणे सृष्टिकर्े कर्त्रेते पितामह नमोस्तु ते हरये पालकायैव नानादेहधराय ते संहर्त्रे शङ्करायैव कर्माकाराय भानवे शक्तये च क्रियामूर्ते देवमानवरूपिणे नागासुरमयायैव धुण्डिराजाय ते नमः स्वराय नमस्तुभ्यं जङ्गमाय नमो नमः जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः किं स्तौ मि त्वां गणाधीश योगाकारेण संस्थितं वेदाधयसमर्थानत्वामधप्रणमाम्यहं धन्यो देहो मदीयोग्यपितरौ कुलमेव च विद्यायोगस्तपश्चैव त्वदङ्घ्रियुगदर्शनाद इत्युक्त्वा भक्तिभावेन सम्प्लुतोऽसौ महामुनिः ननत्त हृष्टरो मा सवानन्दाश्रुसृजन्मुहुः तदस्थं स्वकरे धृत्वा गणनाथः स स स्वजे पूर्णं वचनं परमाद्भुतं श्रीगणेश उवाच धन्योऽसि दत्तयोगेन्द्रो जातोऽसि मदनुग्रहाद त्वं पूर्णं लभसे शान्तिमचलां मयि सर्वदा न भेदस्ते कदाचित्ते भविष्यति महामुने त्वत्प्रीति सम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः गाने स ज्ञानमाहात्म्यं साक्षात्कारकरं तस्माद्विज्ञानक्षेत्रकं विज्ञानगणपो नामनाख्यादो भवाम्यहं दर्शनाच्छान्तिसन्ताद भविष्याम्यत्र मानद अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुता शान्तियोगं सदा तेभ्यो दास्यामि तव सन्निधौ शिवेनैव ज्ञानं साक्षात्कृतं परं विज्ञानेश्वरनामेदि समया शङ्करकृतः तस्यात्र सन्निधौ त्वया ज्ञानं प्रसाधितम् अतः शङ्करमित्रत्वं प्राप्तोऽस्ति मदनुग्रहाद् त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेद् पठदां शृण्वतां नृणां ब्रह्मभूयकरं तथा धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् इत्युक्तान्तर्दधे तत्र गणेशो भक्तवत्सलभा दधिनश्च तं ध्यात्वा तस्तौ तत्र प्रजापदे तदस्तत्कृपया तेन स्वात्मा तत्र समर्पितः योगाभेदमयत्वेन जात आत्मनिवेदकः दत्तो भक्तो गणेशश्च स्वामी तस्येदिनाशितं स्वामिन्यसौ सेवकोऽपि तदाकारेण संस्थितः इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी दत्तेन साधिता मुख्या शान्तियोगप्रयत्नतः एतस्मिन्नन्तरे तत्र प्रकटोऽभूत् स्वयं शिवः विज्ञानेश्वद नामासौ दत्तं तं परिषस्वजे अहो दत्तमहाभागममम मित्रत्वमागतः अत्रैवैनं गणेशानमध्यायं योगसेवया विज्ञानगणराजेदि नाम चक्रे महर्षिभिः क्षेत्रम् तदादेर्विख्यातं बभूव गणपश्य तद् विज्ञाननामकं पुण्यं शान्तियोगफलप्रदं सर्वसिद्धिकरं क्षेत्रं यात्राकारिजनस्य च ज्येष्ठशुक्लचतुर्भ्यां तैष्ठापितो गणनायकः अदत्तत्र महोत्साहस्तद्दिने कुर्वदे नराः यो गीग्भिर्देवगन्धर्वैसिद्धैर्नागैश्च मानुषैः नाना जनैस्तदा दक्षसेवितं क्षेत्रमुत्तमं ये तद्दत्तस्य माहात्म्यं यशृणोदि नरोत्तमः पठेद्वा भविता तस्य संशयः ॐ तत्सदिति श्रीमदान्त्ये श्रीमन श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दत्तचरितं नामाष्टमोऽध्यायः ओम्